अथ द्विसप्ततितमः सर्गः एवमुक्तौ तु तौ वीरौ कबन्धेन नरेश्वरौ गिरिप्रदरमासाद्यपावकम् विससर्जतुः लक्ष्मणस्तु महोल्काभिर्ज्वलिताभिः समन्ततः चितामादीपयामाससा सा सर्वतः तच्छरीरम् कबन्धस्य घृतपिण्डोपमम् महत् मेदसापच्यमानस्य मन्दम् दहत पावकः स विधूयचितामाशु विधूमोऽग्निरिवोत्थितः अरजेवाससी विभ्रन्माल्यं दिव्यं महाबलः ततश्चिताया वेगेन भास्वरो विरजाम्बरः उत्पपातासु संह्रष्टः सर्वप्रत्यङ्गभूषणः विमाने भास्वरे हंसयुक्ते यशस्करे प्रभया च महातेजादिशो दश विराजयन् सोऽन्तरिक्षगतो वाक्यम् कबन्धो राममब्रवीत् शृणुराघवतत्वेन यथा सीतामवाप्स्यसि रामषड्युक्तयो लोके याभिः सर्वम् विमृश्यते परिमृष्टो दशान्तेन दशाभागेन सेव्यते दशाभागगतो हीनस्त्वम् हि ही राम लक्ष्मणः यत्कृते व्यसनं प्राप्तं त्वया दारप्रदर्शनम् तदवश्यम् त्वया कार्यः स सुहृत्सुहृदाम्बरा अकृत्वा न हि ते सिद्धिमहम् पश्यामि चिन्तयन् श्रूयताम् राम सुग्रीवो नाम भ्रात्रा निरस्तः वालिना शक्रसूनुना ऋष्यमूके गिरिवने पम्पापर्यन्तशोभिते निवसत्यात्मवान् वीरश्चतुर्भिः सह वानरैः वानरेन्द्रो महावीर्यस्तेजो वानमितप्रभः सत्यसन्धो विनीतश्च धृतिमान् मतिमान् महान् दक्षः प्रगल्भोद्युतिमान् महाबलपराक्रमः भ्रात्राविवासितो वीरराज्यहेतोर्महात्मना स ते सहायो मित्रम् च सीतायाः परिमार्गणे भविष्यति हिते राममाच शोके मनः कृथाः भवितव्यम् हि तच्चापि न तच्छक्यमिहान्यथा कर्तुमिक्ष्वाकुशार्दूलकालो हि दुरतिक्रमः गच्छ शीघ्रमितो वीरसुग्रीवन्तम् महाबलम् वयस्यन्तम् कुरु क्षिप्रमितो गत्वाद्य राघवा अद्रोहाय समागम्य दीप्यमाने विभावसौ न च ते सो च सहायार्थी च वीर्यवान् शक्तौ ह्यद्ययुवान् कर्तुम् कार्यम् तस्य चिकीर्षितम् कृतार्थो वा कृतार्थो वा तव करिष्यति सरक्षरजसः पुत्रः पम्पामटति शङ्कितः भास्करस्यौरसः पुत्रो सन्न यायुं क्षिप्रमृश्य मूकाल कपुर राघव वयस्यं वयशनचारिण सत्न सर्वाण कपंजर है नरमां साशिना लोके नैपुण्यादिगछति नया विदे किंचिदस्ति राघव यूय प्रतपति सहस्राश पर स नदीर्विपुलान् चैलान् गिरिदुर्गाणि कन्दरान् अन्विष्य वानरैः सार्धम् पत्नीम् तेऽधिगमिष्यति वानरांश्च महाकायान् प्रेषयिष्यति राघवा दिशो विचेतुम् ताम् सीताम् पद्वियोगेन शोचतीम् अन्वेष्यति वरारोहाम् मैथिलीम् समे रु शृङ्गाग्रगतामनिन्दिताम् प्रविश्य पातालतलेऽपि वा श्रिताम् प्लवङ्गमानाम् वृषभस्तव प्रियाम् निहत्य रक्षाम्सि पुनः प्रदास्यति इत्यादृशे श्रीमद् रामायणे वाल्मीकीये आदिकार्ये अरण्यकाण्डे द्विसप्ततितमः सर्गः